कृष्णयजुर्वेदे क्रमपाठे तृतीयकाण्डे तृतीयः प्रश्नः प्रारम्भः ओने तेजस्विन् तेजस्विन् तेजस्वी तेजस्वी त्वम् त्वम् देवेषु देवेषु भूयाः भोयास्तेजस्वन्तम् तेजस्सन्तम् माम् मामायुष्वन्तम् आयुष्मन्तम् वृत्यः सुन्दम् मनुष्येषु मनुष्येषु गुरु गुरुदीक्षायै दीक्षायै च चत्वातपसः तपसश्च च तेजसे तेजसे जुहोमि जुहोमि तेजोवित् तेजोविदसि तेजोविदि तेजहावित् असि तेजः तेजोमा मा माहासीत् आसीन्मा माहम् अहम् तेजः तेजोहासिषम् आशिषम् मा मा माम् तेजः तेजोहासीत् आसीदिन्द्र इन्द्रौजस्विन् ओजस्विन् ओजस्वी ओजस्वी त्वम् त्वम् भूया ओजस्सन्तम् ओजस्वन्तम् माम् मामायुष्मन्तम् आयुष्वन्तम् वर्चस्सन्तम् वर्चस्सन्तम् मनुष्येषु मनुष्येषु कुरु कुरु ब्रह्मणः ब्रह्मणश्च चत्वा क्षत्रस्य क्षत्रस्य च चौजसे ओजसे जुहोमि जुहोम्योजोवित् ओजोविदसि ओजोविदित्योजः वित् अस्योजः ओजो मा माहासीत् आसीन्मा माहम् अहमोजः ओजोहासिषम् आशिषम् मा मा माम् मामोजः ओजोहासीत् आसीत्सूर्य सूर्यभाजस्विन् भ्राजस्विन्भाजस्वी भ्राजस्वी त्वम् त्वम् देवेषु देवेषु भूयाभ्राजस्वन्तम् भ्राजस्वन्तम् माम् मामायुष्मन्तम् आयुष्मन्तम् वर्चस्सन्तम् वर्चस्वन्तम् मनुष्येषु मनुष्येषु कुरु कुरु वाजोः राजोश्च छत्वा त्वापाम् अपाम् च भ्राजसे भ्राजसे जुहोमि जुहोमि सुवर्वित् सुवर्विदसि सुवर्विदिति सुभावित् असि सुवः सुवर्मा माहासीत् आसीन्माहम् सुवर्हासिषम् हाशिषम् मा मा माम् मारुंसुवः सुवरहासीत् हासीन्मयि मयि मेधाम् मेधां मयि मयि प्रजाम् प्रजांमयि प्रजाविधिप्राजाम् मय्यग्निः अग्निस्तेजः तेजो दधातु दधातुमयि मयि मेधाम् मेधाम्मयि मयि प्रजाम् प्रजां मयि मेधाम् मेधां मयि मयि प्रजाम् प्रजां मयि प्रजातिप्रादाम् मयि सूर्यः सूर्योभ्राजः कर्ता इम् कर्ताग्निः कर्तेति कर्ता अग्निः प्रस्तोता प्रस्तोता प्रजापतिः प्रस्तोतेति प्रास्तोता प्रजापतिः सा बृहस्पतिरुद्गाता उद्गाता उद्गातेत्युदुर्गाता विश्वे देवाः देवा उपगातारः देवा उपगातारो मरुतः उपगातार इत्युपागातारः मरुतः प्रतिहर्तारः प्रतिहर्तार इन्द्रः प्रतिहर्तार इति प्रतिहर्तारः इन्द्रो निध'... निधनम् निधनम् ते निधनमिति निधनम् ते देवाः देवाः देवा प्राणभृतः प्राणभृतः प्राणम् प्राणभृतगति प्राणाभृतः प्राणम् मयि प्राणमिति प्राणम् मयि दधतु दधत्वेतत् एतद्वै वै सर्वम् सर्वमध्वर्युः अध्वर्युरुपाकुर्वन् उपाकुर्वन्नुद्गातृभ्यः उपाकुर्वन् इत्युपा आकुर्वन् उद्गातृभ्य उपाकरोति उद्गातृभ्य इत्युद्गातृभ्यः उपाकरोति ते देवाः देवाः प्राणभृतः प्राणभृतः प्राणम् प्राणभृत इति मयि प्राणमिति दधत्विति इत्याह आहैतत् एतदेव एव सर्वम सर्वमात्मन् आत्मन् धत्ते धत्त इडाः इडादेवहोः देवहोर्मनोः देवहोरिति देवाहोः मनर्यज्ञनीः यज्ञनीर्बृहस्पतिः यज्ञनीरिति यज्ञानीः बृहस्पतिरुक्थापदानि उक्थापदानि शकंसिषत् उक्थापदानीत्युक्थापदानि शकंसिषद्विश्वे देवाः सो उक्तवाचः सोक्तवाचः पृथिवी सोक्तवाच इति सूक्तावाचः पृथिवीमातः मातर्मा मा मा हिपुंसीः हिपुंसेर्मधु मधुमनिष्ये मनिष्ये मधु मधुजनिष्ये जनिष्ये मधुवक्ष्यामि वक्ष्यामि मधु मधु वदिष्यामि वदिष्यामि मधुमतीम् मधुमतीम् देवेभ्यः मधुमतीनिति मधुमतीम् उद्यासम् शुश्रूषेण्याम् शुश्रूषेण्याम् मनुष्येभ्यः मनुष्येभ्यस्तम् एद्धा, तम् मा देवाः देवा अवन्तु अवन्तु शोभायैः शोभायै पितरः पितरो नो अनुमदन्तु मदन्त्विति मदन्तु वसवस्त्वा त्वाप्रवृहन्तु गृहन्तु गायत्रेण गायत्रेण छन्दसा छन्दसा अग्नेः अग्नेः प्रियम् प्रियम् पाथः पाथ उप उपैः इह रुद्राः रुद्रास्त्वा त्वाप्र प्रवृहन्तु गृहम् तु त्रैष्टुभेन त्रैष्टुभेन छन्दसा छन्दसेन्द्रस्य इन्द्रस्य प्रियम् प्रियम् पाठः पाथ उप उगेहि इह्यादित्याः आदित्यास्त्वा त्वाप्र प्रवृहन्तु गृहम् जागतेन जागतेन छन्दसा छन्दसा विश्वेषाम् विश्वेषाम् देवानाम् देवानाम् प्रियम् पाथः पाथ उप उरेहिमान्दासु मान्दासु ते ते शुक्र शुक्रशुक्रम् शुक्रमा अधूनोमि धूनोमि भन्दनासु भन्दनासु कोतनासु कोतनासु नूतनासु नूतनासु रेशीषु रेशीषु मेषीषु मेषीषु वाशिषु वाशिषु विश्वभृत्सुति विश्वभृत्सु माध्वीषु गुहासु शकवरीषु शकवरीषु शुक्रासु शुक्रासु ते ते शुक्रः शुक्रशुक्रम् शुक्रमा आधूनोमि धूनोमि शुक्रम् शुक्रन्दे ते शुक्रेण शुक्रेण गृह्णामि गृह्णाम्यह्नः अह्नो रूपेण रूपेण सूर्यस्य सूर्यस्य रश्मिभिः रश्मिभिरिति रश्मीभिः आस्मिन् अस्मिन्नुग्राः उग्रा अचुच्यगुः अचुच्यवृद्धिवः दिरोधारा आह धारा असश्चत असश्चतेत्यसश्चत ककुहम् रूपम् रूपम् वृषभस्य वृषभस्य रोचते रोचते बृहत् बृहत् सोमः सोमस्य सोमस्य पुरोगाः शुक्रः पुरोगा इति पुरहाराः शुक्रशुक्रस्य शुक्रस्य पुरोगाः पुरोगा इति पुरहाः इति ते ते सोमा सोमादाभ्यम् अदा नाम नाम जागृवितस्मै तस्मै ते ते सोमा सोमसोमाय सोमायस्वाहा सो स्वाहोषि ऋषिक्त्वम् त्वम् सोमगायत्रेण गा गायत्रेण छन्दसा छन्दसा अग्नेः अग्नेः प्रियम् पाथः पाथो अपि अपीहि इह वशी वशी त्वम् त्वन्देव देवसोमा सोमत्रैष्टुभेन त्रैष्टुभेन छन्दसा छन्दसेन्द्रस्य इन्द्रस्य प्रियम् पाथः पाथो अपि अपीः इह्यस्मत्सखा अस्मत्सखा त्वम् अस्मत्सखेत्यस्मत् सखाः त्वम् देव देवसोम सोमजागतेन जागतेन छन्दसा छन्दसा विश्वेषाम् विश्वेषाम् देवानाम् देवानाम् देवा प्रियम् प्रियम् पाथः पाथो अपि अपीः अपी इह्या आनः नः प्राणः प्राण एतु प्राण इति प्राणः एतुपरावतः परावत इति परावतः आन्तरिक्षात् अन्तरिक्षाद्दिवः दिवः स्परि परीतिपरि आदिष्पृथिव्याः पृथिव्या अधि अध्यमृतम् अमृतमसि असि प्राणाय प्राणायित्वा प्राणायरिति प्राणाय त्वे जित्वा इन्द्राग्नी मे इन्द्राग्नीति इन्द्राग्नी मे वर्चः वर्चः कृणुताम् कृणुताम् वर्चः वर्चः सोमः सोमो बृहस्पतिः बृहस्पतेरिति बृहस्पतिः वृचो मे मे विश्वे ए विश्वे देवाः देवावृतः वृतो मे मे धत्तम् धत्तमश्विनाः अश्विनेन्त्रिश्विनायत् इतीम् हीमनु अनुवोचत् ओचद्ब्रह्माणि ब्रह्माणि वेः वेरु उतत् तदिति तत् परिविश्वानि विश्वानि काव्या काव्या नेमिः नेमिश्चक्रम् चक्रमिव इवाभवत् अभवदित्यभवत् एतद्वै अपाम् अपाम् नामधेयम् नामधेयम् गुह्यम् नामधेयमिति नामाधेयम् गुह्यम् यत् यदा धावाः आधावा मान्दासु आधावा इत्याह धावाः मान्दासु ते ते शुक्र शुक्रशुक्रम् शुक्रमा इत्याह आहापाम् अपामेव एव नामधेयेन नामधेयेन गुह्येन नामधेदेनेति नामाधेयेन दिवो वृष्टिम् वृष्टिमव अवरुन्धे रन्धे शुक्रम् शुक्रन्ते ते शुक्रेण शुक्रेण गृह्णामि गृह्णामीति इत्याह आहैत एतद्वै वा अह्नः अह्नो रूपम् रूपत् यद्रात्रिः रात्रिः सूर्यस्य सूर्यस्य रश्मयः रश्मयो आह वृष्ट्या ईशते ईशतेऽह्नः अह्न एव रूपेण रूपेण सूर्यस्य सूर्यस्य रश्मिभिः रश्मिभिर्दिवः रश्मिभिरिति रश्मिभिः दिवो वृष्टिम् वृष्टिम् चावयति शावयत्याः आस्मिन् अस्मिन्नुग्राः उग्रा अचुच्यवुः इत्याह आह यथा यजुः यथा यजुरिति यथा युजुः एवैतत् एतत्ककुहम् ककुहम् रूपम् रूपम् वृषभस्य वृषभस्य रोचते रोचते बृहत् बृहदिति इत्याह आहैतत् एतद्वै वा अस्य ककुहम् ककुहम् रूपम् रूपम् यत् यद्वृष्टिः वृष्टिरूपेण रूपेणैव एव वृष्टिम् वृष्टिमव अवरुन्धे रुन्धेजत् यत्ते ते सोम सोमादाभ्यम् अदा अभ्यम् नाम नाम जागृवि इत्याह आहैषः एषः ह वै वै हविषा हविषा हविः हविर्यजति अदा अभ्यम् गृहीत्वा गृहीत्वा सोमाय सोमाय जुहोति जुहोति परा परा वै वा एतस्य एतस्यायुः आयुः प्राणः प्राण एति प्राण इति प्रा अनः एति यः गुंशुम् अघुंशुम् एतु प्राण इति प्रा परावतः इत्याह आहायुः आयुरेव एव प्राणम् प्राणमात्मन् प्राणमिति प्राणम् आत्मन् धत्ते धत्ते अमृतम् अमृतमसि असि प्राणाय त्वेति इति हिरण्यम् हिरण्यमभि अभिविभ्यनिति अनित्यमृतम् अमृतम् वै वै हिरण्यम् हिरण्यमायुः आयुः मृतेनैव एवायुः आयुरात्मन् आत्मम् धत्ते धत्ते शतमानम् शतमानम् भवति शतमानमिति शतामानम् भवति शतायुः शतायुः पुरुषः शतायुरिति शता आयुषः पुरुषः शतेन्द्रियः शतेन्द्रिय आयुषि शतेन्द्रिय इति शता इन्द्रियः आयुष्येव एवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठति तिष्ठत्यपः अप उप उपस्पृशति स्पृशति भेषुजम् वै वा आपः आपो भेषुजम् एव करुते कृत इति क्रूते वायुरसि असिप्राणः प्राणो नाम प्राण प्राणः नाम सवितुः सवितुराधिपत्ये आधिपत्ये पानम् आधिपत्य इत्याधिपत्ये अपानम् मेः अपानमित्यपानम् मेधाः दाश्चक्षुः चक्षुरसि असि श्रोत्रम् श्रोत्रम्नाम नाम धातुः धातुराधिपत्ये आधिपत्य आयुः आधिपत्य इत्याधिपत्ये आयुर्मे मेधाः दारूपम् रूपमसि असि वर्णः वर्णो नाम नाम बृहस्पतेः बृहस्पतेराधिपत्ये आधिपत्ये प्रजाम् आधिपत्येत्याधिपत्येः प्रजाम् मेहि प्रजामितिप्रजाम् मेधाः दारुतम् ऋतमसि असि सत्यम् सत्यम् नाम नामेन्द्रस्य इन्द्रस्याधिपत्ये आधिपत्ये क्षत्रम् आधिपत्येत्याधिपत्येः क्षत्रम् मेहे मेधाः ना भूतम् भूतमसि सिभव्यम् भव्यम् नाम नाम पितृणाम् पितृणामाधिपत्ये आधिपत्येपाम् आधिपत्येत्याधिपत्ये अपामौषधीनाम् ओषधीनाम् गर्भम् गर्भन्धाः धारतस्य ऋतस्य त्वा त्वाव्योमने व्योमनऋतस्य व्योमन इति वीभोमने ऋतस्य त्वा ऋधर्मण इति विधिधर्मणे ऋतस्यत्वात् त्वा सत्याय सत्यायर्थस्य ऋतस्यत्वात् त्वाज्योतिषे ज्योतिषेर्प्रजापतिः प्रजापदर्विराजम् प्रजापदरिप्रजाधिः विराजमपश्यत् विराजमितिविराजम् अपश्यत्तया तया भूतम् भूतम् च भूयम् भव्यम् च चासृजत असृजतताम् तामृषिभ्यः ऋषिभ्यः स्थिरः ऋषिभ्यषिभ्यः तिरोदधात् अदधात्ताम् ताञ्जमदग्निः जमदग्निस्तपसा तपसा पश्यत् तपश्यत्तया तया वै वै सह सपृश्नीन् प्रश्नीन्कामान् कामान् असृगत असृजतत् तत्प्रश्नीनाम् प्रश्नीनाम् प्रश्नित्वम् प्रश्नित्वम् यत् प्रश्नित्वमिति प्रश्नित्वम् यत्प्रश्नयः कृष्णयो गृह्यन्ते गृह्यन्ते प्रश्नेन तैः तैः कामानयजमानः यजमानो वा अवरुन्धे वृन्धे वायुः वायुरसि असि प्राणः प्राणो नाम प्राण इति प्राणः नामेति इत्याह आह प्राणापानौ प्राणापानामेव प्राणापानामिति प्राणापानौ एवाव अवरुन्धे वृन्धे चक्षुः चक्षुरसि असि श्रोत्रम् श्रोत्रम् नाम नामेति इत्याह आहायुः आयुरेव एवाव अवरुन्धे रुन्धे रूपम् रूपमसि असि वर्णः वर्णो नाम नामेति इत्याह आह प्रजाम् प्रजामेव प्रजामिति प्राजाम् एवाव अवरुन्धे रन्धृतम् ऋतमसि असि नामेति इत्याह आहक्षतम् क्षत्वमेव वा, एवाव अवरुन्धे रुन्धे भूतमसि असि भव्यम् भव्यम् नामेति इत्याह आह पशवः पशवो वै अपामौषधीनाम् ओषधीनाम् गर्भः गर्भः पुशून् पिशूनेव एवाव अवरुन्धे रुन्ध एतावद्वै वै पुरुषम् पुरुषम् परितः परितस्तत् तदेव एवाव अवरुन्धे रुन्धऋतस्य ऋतस्य त्वा त्वाव्योमने व्योमन इति व्योमनैति वी वोमनेः वै वा ऋतस्य व्योम व्योमे माम् व्योमेति वीम इमामेव एवाभि अभिजयति ये त्रितस्य ऋतस्यत्वा त्वा विभूमने विभूमन इति विभूमन इति विभूमने इत्याह आहान्तरिक्षम् अन्तरिक्षम् वै वा ऋतस्य ऋतस्य विभूम विभूमान्तरिक्षम् विभूमे दिवीभूम अन्तरिक्षमेव एवाभि अभिजयति ये त्रितस्य त्वा विधर्मणे विधर्मण इति विधर्मण इति विधर्मणे इत्याह आहद्योः द्यौर्वै वा ऋतस्य ऋतस्य विधर्मा विधर्मदिवम् विधर्मेतिवे धर्म इवमेव एवाभि अभिजयति जयत्रतस्य ऋतस्यत्वा त्वा सत्याज सत्याजेति इत्याह आह दिशः दिशो वै वा ऋतस्य दिशः इश एवाभि अभिजयति द्वेत्रितस्य ऋतस्यत्वा त्वा ज्योतिषे इत्याह आह सुवर्गः सुवर्गो वै सुवर्ग इति सुवहागः वै ज्योतिः ज्योतिः सुवर्गम् सुवर्गमेव सुवर्गमिति सुवहागम् एव लोकम् लोकमभि अभिजयतितावन्तः एतावन्तो वै वै देवलोकाः देवलोकास्तान् देवलोका इति देवलोकाः तानेव एवाभि अभिजयति एति दश दशसम् सम्पद्यन्ते पद्यन्ते दशा दशाक्षरा विराट् दशाक्षरेति लशाक्षरः विराडन्नम् विराडिति विराट् अन्नम् विराट् विराट् विराजि विराडिति विराड विराड विराट् विराज्येव विराजीति विराजि एवान्नाद्ये अन्नाद्ये प्रति अन्नाद्यैत्यन्नाद्ये प्रतिष्ठति तिष्ठतीति तिष्ठति एवावै वै यज्ञेन न ना, नावारुन्ध अवारुन्धतेत्यव अरुन्धत तत्परैः परैर्वा अवारुन्धत अरुन्धत तत् तत्पराणाम् पराणाम् परत्वम् परत्वम् यत् यत्परे परे गृह्यन्ते यत् गृष्यन्ते यदेव एव यज्ञेन यज्ञेन नावरुन्धे अवरुन्धे तस्य अवरुन्ध इत्यवारुन्धे तस्यावृद्धि अवरुद्धियम् अवरुद्ध्या प्रथमम् प्रथमम् गृह्णाति गृह्णातीमम् इममेव एवतेन तेन लोकम् लोकमभि अभिजयति जयतीयम् यम् द्वितीयम् द्वितीयमन्तरिक्षम् अन्तरिक्षम् तेन तेनयम् यम् तृतीयम् तृतीयममुम् अमुमेव एवतेन तेन लोकम् लोकमभि अभिजयति जयति यत् एते एते गृह्यन्तेः कृष्यन्त एषाम् येषाम् लोकानाम् लोकानामभिजित्यै अभिजित्या उत्तरेषु अभिजित्या इत्यभिजित्यै उत्तरेष्वहस्सु उत्तरेष्वित्युदोत्तरेषु अहः स्वमुदः अहस्वित्यहसु अमुतोर्वाञ्चः अर्वाञ्चो घृष्यन्ते दृश्यन्तेऽभिजित्य अभिजित्यैव अभिजित्येत्यभिजित्य एवेमान् इमान् लोकान् लोकान् पुनः पुनरिमम् इमम् लोकम् लोकम् प्रत्यवरोहन्ति प्रत्यवरोहन्ति यत् प्रत्यवरोहन्ति प्रति अवरोहन्ति यत्पूर्वेषु पूर्वेष्वहस् अहस्वितः अहस्वित्यहसु इतःपरा अञ्चः परा अञ्चो गृह्यन्ते इ गृह्यन्ते तस्मात् तस्मादितः इतःपरा अञ्चः परा अञ्च इमे इमे लोकाः लोकायत् यदुत्तरेषु उत्तरेष्वहस्सु उत्तरेष्वित्युदुत्तरेषु अहस्वमुतः अहस्वित्यहसु अमुतोऽर्वाञ्चः अर्वाञ्चो गृह्यन्ते ये गृह्यन्ते तस्मात् तस्मादमुतः अमुतो अर्वाञ्चः अर्वाञ्च इमे इमे लोकाः लोकास्तस्मात् तस्मादयातयाम्नः अजातयाम्नो लोकाद् अयातयाम्न इत्यजातायाम्नः लोकान्मनुष्याः अनुष्या उपज्जीवन्ति जीवन्ति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः कस्मात् कस्मात् सत्यात् सत्यादद्भ्यः अद्भ्य ओषधयः अद्भ्येत्यतेभ्यः ओषधयः सन् सम्भवन्ति भवन्तोषधयः ओषधयो मनुष्याणाम् मनुष्याणामन्नम् अन्नम् प्रजापतिम् प्रजापतिम् प्रजाः प्रजापतिमिति प्रजापतिम् प्रजानु प्रजा इति प्राजाः अनुप्रजायन्ते जायन्त इति परान् परान्नु अन्विति इति ब्रूयात् ब्रूयाद्यत् यद्गृह्णाति गृह्णात्यद्भ्यः अद्भ्यस्त्वा अभ्येत्यतेभ्यः ओषधेभ्यः ओषधेभ्यो गृह्णामि ओषधेभ्येत्यौषधेभ्यः गृह्णामीति इति तस्मात् तस्मादद्भ्यः अद्भ्य ओषधयः अभ्येत्यतेभ्यः ओषधयः सम् सम्भवन्ति भवन्ति यत् यद्गृह्णाति गृह्णात्यौषधीभ्यः ओषधेभ्यस्त्वा ओषधेभ्येत्यौषधेभ्यः त्वाप्रजाभ्यः प्रजाभ्यो गृह्णामि प्रजाभ्यैः प्राजाभ्यः गृह्णामीति इति तस्मात् तस्मादौषधयः ओषधयो मनुष्याणाम् मनुष्याणामन्नम् अन्नम् यत् यद्गृह्णाति गृह्णाति प्रजाभ्यः प्रजाभ्यस्त्वा प्रजाभ्येदि प्राजाभ्यः प्रजापतये प्रजापतये गृह्णामि प्रजापतयेति प्रजापते गृह्णामीति इति तस्मात् तस्मात् प्रजापतिम् प्रजापतिम् प्रजाः प्रजापतिमिति प्रजापतिम् प्रजा प्राजाः अलप्र प्रजायन्ते जायन्त इति जायन्ते प्रजावृतिर्देवासुरान् प्रजावृतिरितिर्प्रजावृतिः देवासुरानसृजत देवासुरान् इति देवासुरान् असृजत तत् तदनु अनुयज्ञः यज्ञोऽसृजत असृज्यते यज्ञम् यज्ञम् छन्दागुंसि छन्दागुंसिते ते विश्वञ्चः विश्वञ्चोपि व्यक्रामन् अक्रामान् सः सोऽसुरान् असुराननु मनुयज्ञः यज्ञोप अपा तक्रामद्यज्ञम् यज्ञम् छन्दागुंसि छन्दागुंसिते ते देवाः देवा अमन्यन्त अमन्यन्तामी अमी वै अमी इत्यमी वा इदम् इदमभूवन् अभूवनयत् यद्वयम् वयग्रस्मः स्म इति ते ते प्रजापतिम् प्रजापतिमुपा प्रजापतिमिति प्रजापतिम् उपाधावन् अधावन् सः सोऽब्रवीत् अब्रवीत् प्रजापतिः प्रजापतिश्छन्दसाम् प्रजापतिरिति प्रजापतिः छन्दसाम् वीर्यम् वीर्यमादाय आदायतत् आदायेत्य आदाय तद्वः वःप्रदास्यामि दास्यामीति इति सः स छन्दसाम् छन्दसाम् वीर्यमादाय आदायतत् आदायेत्य आदाय तदेयेभ्यः येभ्यः प्र प्रायच्छत् अयच्छत्तत् तदनु छन्दागस्यपा अपा आक्रामन् अक्रामन्छन्दागंसि छन्दागंसि यज्ञः यज्ञस्ततः ततो देवाः देवाभवन् अभवन्पराः अभवन परासुराः परा असुरायः एवम् एवम् छन्दसाम् छन्दसाम् वीर्यम् वीर्यम् वेदा, वेदा, वेदा आश्रावय वल्या, श्रावयास्तु अस्तु श्रौषट् श्रौषड्यज यजये ये यजामहे यजामहे ऋषत्कारः ऋषट्कारो भवति वषट्कार इति वषट्कारः भवत्यात्मनाः आत्मना पराः प्रा अस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मै कस्मैकम् कमद्धर्युः अद्धर्युरा आश्रावयति श्रावयतीति इति छन्दसाम् छन्दसाम् वीर्याय वीर्यायेति इति ब्रूयात् ब्रूयादेतत् एतद्वै वै छन्दसाम् छन्दसाम् वीर्यम् वीर्यमा आश्रावय श्रावयास्तु अस्तु श्रौषट् श्रौषड्यज यजये ये यजामहे यजामहे वषट्कारः यः वषट्कार इति वषट्कारः य एवम् वेद वेदसवीर्यैः सवीर्यैरेव सवीर्यैरिति सा वीर्यैः एव छन्दोभिः अर्चति यत् यत्किम् किञ्च चार्चति अर्चति यत् यदिन्द्रः इन्द्रो वृत्रम् वृत्रमहन् अहन्नमेध्यम् अमेध्यम् तत् तद्यत् यद्यतीन् यतीनपादपत् अपादपदमेध्यम् अपादपदित्यपा अवपत् अमेध्यम् तत् तदथा अथ कस्मात् कस्मादैन्द्रः ऐन्द्रो यज्ञः यज्ञ आसग्गस्थातोः सद्गस्थातोरिति सग्स्थातोरिति साम् स्थातोः इत्याहो आहुरिन्द्रस्य इन्द्रस्य वै वा एषा एषा यज्ञ्याः यज्ञा तनोः तनोर्यत् यद्यज्ञः यज्ञस्ताम् तामेव एव तत् तद्यजन्ति यजन्ति यः एवम् एवम् वेद वेदोप यज्ञो नमति नमतीति नमति आजुर्दा अग्ने आजुर्दा इत्याजहोदाः अग्नेः विषः हविषो विषाणः विषाणो घृतप्रतीकः घृतप्रतीको घृतयोनिः घृतप्रतीक इति निरेधि घृतयो निरिति घृतायोनिः एधीत्येधि घृतम् प्रीत्वा प्रीत्वा मधु मधु चारु चारुद्रव्यम् पिता पितेव इव पुत्रम् पुत्रमभि अभिरक्षतात् रक्षतादिमम् इममितीमम् आवृष्ठ्यते वृष्ट्यते वै वा एतत् एतद्यजमानः यजमानो अग्निभ्याम् अग्निभ्याण्यत् अग्निभ्यामित्यग्निभ्याम् यदेनयोः एनयोः श्रुतम् कृत्य श्रुतम् कृत्याथ श्रुतम् कृत्येति श्रुतम् कृत्य अथ अन्यत्र अन्यत्रावभृथम् अवभृथमवैति अवभृथमित्यवाभृथम् आयुर्दा अग्ने आयुर्दा इत्याजुहुदाः अग्ने हविषः हविषा जुषाणः जुषाण इति इत्यवभृथम् अवभृथमवैष्यन् अवभृथमित्यवाभृथम् अवैष्यन् जुहुयात् आहुत्य इव आहुत्येत्याहुताः एवैनौ एनो शमयति शमयति न नार्तिम् आर्तिमा आर्च्छति रच्छति यत्कुसीदम् कुसीदमप्रतीक्तम् अप्रतीतम् मयि अप्रतीतमित्रिप्रतीक्तम् मयि येन येन यमस्य यमस्य ये बलिनाः बलिना चरामि चरामीति चरामि यहैव सन् सन्निरवदये निरवदयेतत् निरवदयति निः अवदये तदेतत् एतत्तत् तदग्ने अग्ने मृणः अनृणो भवामि भवामीति भवामि विश्वलोप विश्वदावस्य विश्वलोपेति विश्वालोप विश्वदावस्य त्वा विश्वदावस्येति विश्वादावस्य त्वासन् आसन् जुहोमि गृहोम्यग्धात् अग्धादेकः अग्धादित्यग्धात् एको हुतात् अहुतादेकः अहुतादित्यहुतात् एकः समसनात् समसनादेकः समसनादिति समसनात् एक इत्येकः तेन नः कृण्वन्तु कृणन्तु भेषजम् भेषजकंसदः सदःसहः सहो वरे एण्यम् वरे एण्यमिति वरे एण्यम् रजन्नः नो नभसा नभसा पुरः पुरः सग्रस्फानः सग्स्फानो अभि सग्स्फान इति संस्फानः अभिरक्षतु रक्षत्विति रक्षतु ग्रहाणामसमर्त्यै असमर्त्यै बृहवः असमर्त्या इत्यसंवृत्त्यैः बहवो नः नो गृहाः गृहा असन् असन्नित्यसन् स त्वम् नो नभसः नभसस्पतेः रवूर्जम् ऊर्जन्नः नो धेहि धेहि भद्रया भद्रयेति भद्रया पुदर्णः नो नष्टम् नष्टमा आकृधि कृधि पुनः पुदर्णः नो रयिम् रयिमा आकृधि कृधिति कृधि देवसद्गुस्फानसद्गुस्फानसहस्रपोषस्य सद्गुःस्फानेति संस्फान सहस्रपोषस्येषे सहस्रपोषस्येति सहस्रपोषस्य यीशुशेषः सनः नो रास्व रास्वाज्जानिम् अज्ञानम् राजः राजस्पोषम् पोषकम् सुवीर्यम् सुवीर्यकम् संवत्सरेणाहम् सुवीर्यमिति सुवीर्यम् संवत्सरेणागः स्वस्तिम् संवत्सरेणाविति संवत्सरेणाम् स्वस्तिमिति स्वस्तिम् अग्निर्वाव वावयमः यम इयम् इयमी यमे कुसीदम् कुसीदम् वै वा यमस्य यजमानः यजमान आ दत्ते दत्ते यत् यदोषधीभिः ओषधेभिर्वेदिम् ओषधीभिरित्योषधीभिः वेदिग्स्तुणाति स्तृणाति यत् यदनुपोष्य अनुपोष्य प्रजायात् अनुपौष्येत्यनुपपोष्य प्रयाद्ग्रीवबद्धम् प्रयाजादिति प्राजायात् ग्रीवबद्धमेनम् ग्रीवबद्धमिति ग्रीवाबद्धम् एनममुष्मिन् अमुष्मिल्लोके लोके नेनीयेरन् नीयरगजत् यत्कुसीदम् कुसीदमप्रतीक्तम् अप्रतीक्तम् मयि अप्रतीक्तमित्यप्रतीक्तम् मयीति इत्युवोति ओषतीह इहैव एव सन् स नियमम् यमम् कुसीदम् कुसीदम् निरवदाय निरवदाय नृढः निरवदायेति निः अवदाय नृढः सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुवहागम् लोकमेति एति यदि मिश्रमिव इव चरेत् चरेदञ्जिनाः अञ्जलिनासक्तो सक्तोऽम् प्रदाव्ये प्रदाव्ये जुहुजात् प्रदाव्यै इति प्रादाव्ये जुहुजाेषः एष वै वा अग्निः अग्निर्वैश्वानरः वैश्वानरो यत् यत्प्रदाव्यः प्रदाव्यः सः प्रदाव्यै इति प्रादाव्यः स एवैनम् एनग् सुरैति सुरेदत्यह्नाम् विधान्याम् विधान्यामेकाष्टकायाम् विधान्यामिति विधान्याम् एकाष्टकायामपूपम् एकाष्टकायामित्येकाष्टकायाम् अपूपम् चतुःश्रावम् चतुश्रावम् भक्त्वा चतुश्श्रावमिति चतुः श्रावम् भक्त्वा प्रातः प्रातरेतेन एतेन कक्षम् कक्षमुप उपौषेत् पोषेद्दि यदि दहति दहति पुण्यसमम् पुण्यसमम् भवति पुण्यसममिति पुण्यासमम् भवति यदि यदि न दहति दहति पापसमम् पापसममेतेन पापसममिति पापसमम् एतेनः अस्मा स्म वै वा ऋषयः ऋषयः पुरा पुरा विज्ञानेन विज्ञानेन दीर्घसत्रम् विज्ञानेनेति विज्ञानेन दीर्घसत्रमुप दीर्घसत्रमिति दीर्घसत्रम् उपयन्ति यन्ति यः यो वै वा उपद्रष्टारम् उपद्रष्टारमुपश्रोतारम् उपद्रष्टारमित्युपाद्रष्टारम् उपश्रोतारमनुक्षातारम् विद्वान् अनुख्यातारमित्यनुख्यातारम् विद्वान् यजते यजते सम् स ममुष्मिन् ममुष्मिल्लोके लोक इष्टापूर्तेन गच्छते इष्टापूर्तेनेति इष्टापूर्तेन गच्छते वा उपद्रष्टा उपद्रष्टा वायुः पद्द्रष्टेत्युपाद्रष्टा वायुरुपश्रोता उपश्रोतादित्यः प्रश्रोतेत्युपाश्रोता आदित्योऽनुख्याता अनुख्याता तान् अनुख्यातेत्यननुख्याता य एवम् एवम् विद्वान् विद्वान् यजते यजते सम् सममुष्मिन् अमुष्मिन्लोके लोके इष्टापूर्तेन इष्टापूर्तेन गच्छते इष्टापूर्तेनेति इष्टापूर्तेन गच्छतेऽयम् अजन्नः नभसा नभसा पुरः पुर इति इत्याह आहाग्निः अग्निर्वै वैनभसा नभसा पुरः पुरोग्निम् अग्निमेव एवतत् तदाह आहीतत् एतन्मे ए गोपाय इति सः स त्वम् त्वं नः नो नभसः नभसस्पतेरे पत इति इत्याह आह वायुः वायुर्वै वैनभसः नभसस्पतिः पतिर्वायुम् एतन्मे ए मे इति देव देवसगुस्फान सर्गस्फानेति सर्गस्फानेति सांस्थान इत्याह आहासौ असौ वै वा आदित्यः आदित्यो देवः एवः सर्गस्थानः सर्गस्थान आदित्यम् सर्गस्थान इति सांस्थानः आदित्यमेव भा एतत् तदाह आहेतत् एतन्मे गोपाय गोपायेति इतीति एतम् युवानम् परि परिवह वो ददामि ददामि तेन क्रीडन्तीश्चरत चरतप्रियेण प्रियेणेति प्रियेण मानः न शाप्ता शाप्तजनुषाः जनुषासुभागाः सुभागा इति सुभागाः राजस्पोषेण पोषेण सम् समिषा मदेमेति मदेम नमो महिम्ने उत उत चक्षुषे चक्षुषे ते ते मरुताम् मरुताम्बितः इतस्तत् तदहम् अनुमन्यस्व मन्यस्व सुयजाः सुयजा यजाम सुयजेति सुयजा यजामजिष्टम् जिष्टम् देवानाम् देवानामिदम् इदमस्तु अस्तु हव्यमिति हव्यम् देवानामेषः एष उपनाहः उपनाह आसीत् उपनाह इत्युपनाहः आसीदपाम् अपाम् गर्भः गर्भ ओषधेषु ओषधेषु न्यक्तः न्यक्त इति न्यक्तः सोमस्य द्रप्सम् द्रप्समवृणीत वृणीतपूषा वेषा बृहन् बृहन्नद्रिः अद्रिरभवत् अभवत्तत् तेषाम् पितावत्सानाम् वत्सानाम् पतिः प्रतिर्घ्नयानाम् घ्नयानामथो अथो पिता अथो इत्यथो पिता महताम् महताम् गर्गराणाम् गर्गराणामिति जराजो जराजु प्रतिधुग् प्रतिथुक्पीयूषः प्रतिधुगिति प्रतिधुग् पीयूष आमिक्षाः आमिक्षामस्तु अस्तु घृतम् अस्य रेतः रेत इति रेतः त्वाङ्गावः गावो वृणत ऋणतराज्याय राज्याय त्वाम् त्वागम्हवन्त हवन्तमरुतः मरुतस्वर्गाः स्वर्का इति सु अर्काः वर्ष्णम् क्षत्रस्य क्षत्रस्य ककुभि ककुभिः श्रियाणः शिश्रियाणस्ततः रतो नः उग्रोवि विभज भजासूनि रसूनीति वसूनि व्यर्धेन वै व्यर्धेनेति वि वा एषः एष पशुनाः पशुना यजते यजतेजस्य यस्य एतानि एतानि न क्रियन्ते क्रियन्त एषः एषः हतु त्वयि वै समृद्धेन समृद्धेन यजते समृद्धेनेदिसमृद्धेन यस्य इतानि एतानि क्रियन्ते क्रियन्त इति क्रियन्ते सूर्यो देवः देवो दिविशद्भ्यः धाता दिविशद्भ्य इति दिविशत्भ्यः धाता क्षत्राय क्षत्रायवायुः प्राजुःप्रजाभ्यः प्रजाभ्येति प्राजाभ्यः बृहस्पतिस्त्वा त्वा प्रजापतये प्रजापतये ज्योतिष्मतीम् प्रजापतयेति प्रजापतये ज्योतिष्मतीम् जुहोत् जुहोत्विति जुहोत् यस्यास्ते ते हरितः हरितो गर्भः गर्भोऽथो अथो योनिः अथो इत्यथो योनिर्हिरण्यी हिरण्यैति हिरण्यैः अङ्गा निःकृता नः कृता यस्यी देवैः सम् समजीगमम् अजीगममित्यजीगमम् आवर्तन वर्तनवर्तय वर्तयनि निनिवर्तन निवर्तनवर्तय निवर्तनेति निवर्तन वर्तयेन्द्र इन्द्रनर्दबुद नर्दबुदेति नर्दबुद भूम्याश्चतस्रः चतस्रः प्रदिशः प्रदिशस्ताभिः प्रदिश इति ताभिरा आवर्तय वर्तया पुनः विते ए ते भिनद्मि भिनद्मितकरीम् योनिम् योनिम्बि विगवीन्यौ गवीन्या विदिगवीन्यौ मातरम् मातरम् च पुत्रम् पुत्रम् चवि विगर्भम् गर्भम् च जराजो जराजु चेति च बहिष्टेः ते अस्तु बाल् बाल इति इतीति रुद्रप्सो विश्वरूपः रुद्रप्स इत्युरुद्रप्सः विश्वरूप इन्दुः विश्वरूप इन्दुः पवमानः पवमानो धीरः धीर आनञ्ज आनञ्जगर्भम् गर्भमिति गर्भम् एकपदी द्विपदी इ एकपदीद्येकापदी द्विपदी त्रिपदी द्विपदीति द्विपदी त्रिपदी चतुष्पदी त्रिपदीति त्रिपदी चतुष्पदी पञ्चपदी चतुष्पदीति चतुःपदी पञ्चपदी षट्पदी पञ्चपदीति पञ्चापदी षट्पदी सप्तपदि षट्पदीति षट्पदी सप्तपद्यष्टापदी सप्तपदीति सप्तापदी अष्टापदीभुवनाम् अष्टापदीत्यष्टापदी भुवना नो न प्रथताम् प्रथतागस्वाहा स्वाहेति स्वाहा मही स्वाहे द्योः द्यौः पृथिवी पृथिवी च न इमम् नञ् यज्ञम् यज्ञम् विवक्षताम् विविक्षतामिति विवक्षताम् इवृताम् नः मा भरीमभिः भरीमभिरितिभरीमाभिः इदम् वा अम् आस्ये हविः हविः प्रियमिन्द्रा बृहस्पती इन्द्राबृहस्पती इति इन्द्रा बृहस्पती उक्तम् मदः मदश्च शस्यते शस्यत इति शस्यते अयम् वाम् वाम् परि परिषिच्यते शिच्यते सोमः सोम इन्द्रा बृहस्पती इन्द्राबृहस्पती इति इन्द्राबृहस्पती चारुर्मदाय मदाय पीतयेः इति पीतयेः अस्मे इन्द्राबृहस्पती अस्मे इत्यस्मे इन्द्राबहस्पतिरयिम् इन्द्रा बृहस्पती इति इन्द्रा बृहस्पतीयिन्धत्तम् धत्तकुम् शतग्विनम् शतग्विनमिति शताग्निनम् अश्वावन्तकम् सहस्रिणम् अश्वावन्तमित्यश्वावन्तम् सहस्रिणमिति सहस्रिणम् बृहस्पतिर्मः नः परि परिपातु पातु पश्चात् पश्चादुत उतोत्तरस्मात् उत्तरस्मादधरात् उत्तरस्मादित्युतरस्मात् अधरादघायोः अघायोरित्यघायोः इन्द्रः पुरस्तादात् पुरस्तादुत उतमध्यतः मध्यतो नः अः सखाः सखा सखिभ्यः सखिभ्यो वरिवः सखिभ्य इति सखीभ्यः वरिवः कृणोतु क्रौत। कृणोत्विति कृणोतु क्रौत। वितेः हे विश्वक् विश्वग्वातजूतासः वातजूतासो अग्ने वातजूतास इति वातजूतासः भामासः भामासः शुचे शुचे शुचयः शुचयश्चरन्ति चरन्ति रक्षासो दिव्याः तुविम् रक्षास इति तुविम् रक्षासः विद्यानपग्वाः नपग्भाववावनाः वनावनन्ति वनन्ति धिषता त्रिषता रुजन्तः रुजन्त इति रुजन्तः त्वामग्ने अग्ने मानुषीः मानुषीरीडते ईते विशः विशो होत्राविदम् होत्राविदम् विविचिम् गोत्राविदमिति होत्राविदम् विविचिकम् रत्नधातमम् विविचिमिति विविचिम् रत्नधातममिति रत्नाधातमम् गुहासन्तम् सन्तगम् सुभग सुभगविश्वदर्शतम् सुभगेति सुभग विश्वदर्शनम् तु विष्मणसम् विश्वदर्शतमिति विश्वादर्शतम् तु विष्मणसगम् सुयजम् सुयजम् घृतश्रियम् सुयजमिति सुयजम् घतश्रियमिति घृताश्रियम् धाता ददातु ददातु नः मो रयिम् रयिमीशानः पतिरितिपतिः स नः नः पूर्णेन पूर्णेन वावनत् वावलदिति वावनत् धाता प्रजाया आह प्रजाया उत प्रजाया इति प्राजाया आह उत राजः राज धाता धातेदम् इदम् विश्वम् विश्वम् भुवनम् भुवनम् यजान यजानेति यजान धाता पुत्रम् पुत्रम् यजमानाय यजमानाय दाता आ, दाता तस्मै तस्माहु वहव्यम् हव्यम् गतवत् घृतवद्विधेम घृतवदिति घृतावत् विधेमेति विधेम धाता ददातु ददातु नः नो रयिम् रयिम् प्राचीम् प्राची इञ्जीवातुम् जीवातुमक्षिताम् अक्षितामित्यक्षिताम् अयम् देवस्य देवस्य धीमहि धीमहि सुमतिम् सुमतिम् सत्यराधसः सुमतिमिति सुमतिम् सत्यराधस इति सत्याराधसः धाता ददातु राशुषे वसूरि वसूरि प्रजाकामाय प्रजाकामाय मीढुषे प्रजाकामाजेति प्रजाकामाज मीढुषे दुरोडे दुरोड इति दुः ओदे तस्मै देवाः देवा, देवा अमृताः सन् सं, सञ्जयन्ताम् यन्ताम् विश्वे विश्वे देवासः देवासो अदितिः अदितिः सजोषा इति सा जोषा आह अनुनः लोद्य रद्यानुमतिः मत्य, अनुमतिर्यज्ञम् अनुमतिरित्यनोमतिः अनु देवेषु देवेषु मन्यताम् मन्यतामिति मन्यताम् अग्निश्च सहव्यवाहनः अव्यवाहनो भवताम् अव्यवाहन इति हव्यावाहनः भवताम् दाशुषे दाशुषे मयः मय इति मयः अनुमते त्वम, अनुमते त्वम् अनुमत इत्यनुमते त्वम् मन्यासि मन्यासी शम् शम् च नमः नः कृधि कृधीति कृधि कृत्वे दक्षाय दक्षायणः नो हिनु हिनुप्रणः न आयोगुंषि आयोगुंषितारुशः तारश इति तारिशः अनुमन्यताम् मन्यतामनुमन्यमाना अनुमन्यमाना प्रजावन्तम् अनुमन्यमानेत्यनुमन्यमाना प्रजावन्तकम् वयिम् प्रजावन्तमिति प्रजावन्तम् तोम्त, अयिमक्षीयमाणम् अक्षीयमाणमित्यक्षीयमाणम् तस्यै वयम् प्रयगम् हेडसि हेडसि मापि अपि भूम भूमसा सा नः देवी सुहवाः सुहवा शर्म सुहवेदि सुहवाः शर्म यच्छतु यच्छत्विति यच्छतु यस्यामिदम् प्रादिशि यद्विरोचते विरोचतेऽनुमतिम् विरोचत इति विरोचते अनुमतिम् प्रति अनुमतिमित्यनुमतिम् प्रतिभूषन्ति भूषन्त्यायवः आयवैत्यायवः यस्या उपस्थः उपस्थ उरु उपस्थ इत्युपास्थः उर्वन्तरिक्षम् नो देवी देवी सुहवाः सुहवा शर्म सुहवेतिसूहवाः शर्म यच्छतु यच्छप्रिति यच्छतु राकामहम् अहगुम् सुहवाहम् सुहवागुम् सुष्टुती सुहवामिति सूहवाहम् सुष्टुती हुवे सुष्टुतति सुस्तुती भुवे शृणोतु शृणोतु सुभगा बोधतु सुभगेति सुभगाः बोधतुत्मनाः त्मनेतिमनाः सीव्यत्वपः अपःसूच्या सूच्याच्छिद्यमानया अच्छिद्यमानया ददातु ददातु वीरम् वीरकम् शतदायम् शतदायमुख्यम् शतदायमिति शतादायम् मुख्यमिति चुक्थ्यम् यास्ते ते राके राके सुमतयः सुमतयः सुपेशसः सुमतय इति सुमतयः सुपेशसोजाभिः सुपेशस इति सोपेशसः याभिर्ददासि ददासि दाशुषे दाशुषे वसूनि वसूनीति अद्य सुमनाः सुमना उपागहि सुमना इति सुमनाः उपागहि सहस्रपोषम् उपागहित्युपा आगहि सहस्रपोषकम् सुभगे सहस्रपोषमिति सहस्रापोषम् सुभगेरराणा सुभग इति सुभगे राणेतिरराणा स्नीबालिया या सुपाणिः सुपाणिरिति सोपाणिः कुहूमहम् अहकुम् सुभगाम् सुभगा अहम् विद्मनापसम् सुभगामिति सोभागाम् युद्मनापसमस्मिन् युग्मनापसमिति विद्मा अपसम् अस्मिन् यज्ञे यज्ञे सुहवाहम् सुहवाम् जोहवीमि सुहवामिति सोऽहवाहम् जोहवीमिति जोहवीमि सा नः नो ददातु ददातु श्रवणम् श्रवणम् वितृणाम् वितृणाम् तस्या आह तस्यास्ते ते देवि देवि हविषा हविषा विधेमेति विधेम कुहोर्देवानाम् देवानामृतस्य अमृतस्य पत्नीः पत्नीहव्याः कव्यानः अस्य अस्य हविषः हविषश्चिकेतु चिकेत्विति चिकेतु सम् दाशुषे दाशुषे किरतु किरत् भूरि भूरि वामम् वामम् राजः राजस्पोषम् पोषम् चिकितुषे चिकितुषे दधातु दधात्विति